गर्गसंहित खण्डं सेवन् विश्वजित् खण्डम् अध्यायम् ट्वेण्टिसिक्स् श्रीनारद उवाच अथ कार्ष्णिम् परान्देशान् दिव्यद्रुमलताकुलान् सहस्रपत्रवद्भिश्च सरोभिश्चोभितान्ययौ अक्षौहिणीशदयुधप्रद्युम्नश्चण्डविक्रमः यक्षैर्दिष्टेन मार्गेण खण्डम् किम् पुरुषम् व्ययौ रङ्गवल्लीपुरम् यत्र हेमकोड गिरेरथः तस्य किम् अकोति धन्या मधुरा पुरीवरा बभूवयस्याम् परमेश्वरो हरिः अहोति धन्यम् सददम् यधोकुलम् जातो हि यस्मिन्नखिलाण्डपालकः धन्यम् च तच्चूरसुदस्य मन्दिरम् गोलोकनाधेन मनोहरम् कृतम् धन्यम् परम् माधुरमण्डलम् सुरैः सुदुर्लभम् यत्र चारमाधवः चा धन्यतमम् मनोहरम् विदुर्गृहाद्यत्र गतो हरिशिशुः चचार कृष्णशिशुना बलेन हि यशोदया दुग्धमुखः सुलालितः वृन्दावनम् पुण्यतमम् परात्पर श्रीकृष्णपादाम्बुजरेणुराजितम् गापालजन्यत्र चचार बलो गोपालबालै सबलस्वयं हरिः यो दानलीलां किल मानलीलां श्रीरासलीलां यत्र च हरकृष्णो यस्य अभिगायन्ति धन्या वृषभानुनन्दिनी लीलावदी सा निजलोकशालिनी चार कृष्णेन असोदि धन्यास्ति कलिन्दनन्दिनी श्रीकृष्ण वामांसमुद्भवायां तडे मिलिन्दध्वनि संकुले वटे तत्स्पर्शनाद्यादिनरकृधार्थधां समुद्भवो यो हरिवक्षसो गिरिर्गोवर्धनो नाम गिरीन्द्रराजरा विराजदे सव्रजमण्डले परो यद्दर्शनाञ्जन्म पुनर्न विद्यते अहोदि धन्या यदुमण्डलीभिर्विराजदे भूमितले मनोहरा वैकुण्डलीलाधिकृता कुशस्थली यथा तडिद्भिर्जलदावलिरुदिवि यत्रैव साक्षात् पुरुषपरेश्वरो धृत्वा च दुर्व्यूहमलम् विराजदे यस्तु ग्रसेनाय नृपेशदाम् कृष्णाय तस्मै हरये नमो नमः प्रणोदितस्तेन नृपेण धीमदा जगद्विजे तु कृत्वा तद्दर्शनमद्य दुर्लभम् वयम् कृदार्था भवेम सर्वदः श्रीनारद उवाजा युद्धं हरिर्नृप यशो विशदैश्चरित्रैर् उद्य त्रिलोकमलम् विशदी चकारा पूर्णेन्दुरश्मिलै पूर्णेन्दु रश्मिलितै तरलैः स्फुरद्भिः प्रोद्यद्भिरुद्गज इवामलसिन्धुदुग्धम् युद्धं यशस्वमल नृप शम्बरारिः श्रुत्वा दिहर्षिततनुप्रददौ दधानि केयूरभारनवरत्नमनोहराणि तेभ्यकिरीडमणिकुण्डलकङ्कणानि रङ्गवल्लीपुराधीश सुबाहुश्चन्द्रवंशजः नत्वा बलिं ददौ सोऽपि प्रद्युम्नाय महात्मने तस्मै प्रसन्नो भगवान् प्रद्युम्नो मीनकेतनः दत्वा चूडामणिं दिव्यं पप्रचेदं महामनाः श्रीप्रद्युम्न उवाच रङ्गवल्लीपुरस्याभिनामकेन प्रकाशितं यदद्भोगि सुबाहो मे श्रुतं पूर्वं त्वया किल सुबाहुरुवाच देवासुरैपुरराजन्मधितः क्षीरसागरः विनिर्गदानि मधनाद्रत्नानि च च दुर्दश निःसृतम् कलशम् तस्मात् सुधापूर्णम् मनोहरम् तम् ददर्श हरिसाक्षात् नेत्राभ्याम् पुष्करेक्षणः तन्नेत्रहर्षबिन्दुश्च कलशे निपपातः तस्माद्वृक्षसमुद्भूतस्तुलसीदि रङ्गवल्लीति तन्नाम चकारमधुसूदनः अत्र किं पुरुषे खण्डे हे मकूडगिरेरथः तस्याश्च रङ्गवल्ल्या कौ स्थाबनां स चकारः रङ्गवल्लीमहावृक्ष सदात्रैव विराजते तन्नाम्ना प्रसिद्ध मा भूद्रङ्गवल्लीपुरं द्विदन् अत्र नित्यं हि समायादि दर्शनार्थसमायादि महात्मारामपूजकः श्रीनारद उवाजा इति श्रुत्वा शम्बरारी रङ्गवल्लीम् मनोहरम् दृष्ट्वा प्रदक्षिणीकृत्य देशान्यान् जगामः हेम कूढतडीभूतम् वनम् प्राप्तम् भयङ्करम् चिल्ली चङ्गार संयुक्तम् सिंहचित्रकनादिदम् वह्ैकरीन्द्रै संयुक्तं शिवो लोक हृदावृदं कीचकाश्वर्थमन्धारवडभूर्जसमाकुलं कृष्णाखरीदकीवल्लीबदरैः सखनं वनं तस्माद् विनिर्गतसर्पोदश योजनलम्बिदः अग्रसद्गजवृन्दानि भूत्कारं कारयन्मुहुः अहकार्ये तदा जाते सेनायं मैथिलेश्वर प्रचण्डकरलैर्वादैर्भस्मीभूते दिशान्तरे भानु सुभानुस्वर्भानुप्रभानुर्भानुमांस्तथा चन्द्रभानुर्भषद्भानुरदिभानुस्तदाष्टमः श्रीभानुप्रतिभानुश्च सत्यभामात्मजादश्च ते जग्नुश्च जेते जग्नुशरैस्तीक्ष्णैः सर्पम् रौद्रमदोत्कटम् बाणैः सम्भिन्न सर्वाङ्गपदिदोधरणीतले सर्परूपम् विहायसु गन्धर्वो भूत्स्फुरद्युति नत्वा श्रीकृष्णपुत्रां स्थान्द्यो दजन्मण्डलम् दिशाम् पुष्पैर्वक्षत्सु विमानेन दिवं ययौ बहुलाश उवाच गन्धर्वोऽयं तु पूर्वं केन पापेन सर्पदां प्राप्तकदं वद मुने त्वं परावरवित्तमः श्रीनारद उवाजा आर्टिषेणस्य योभ्रादा सुमतिर्नामसुन्दरः रामायणम् हनुमदा पठितुं ससमागतः हेमकूडे हनुमदकुर्वदो रामसेवनं प्रातःकालसमारभ्य कटिकाश्च चतुर्दश सलक्ष्मणं रामचन्द्रं ध्यायतो जानकीपदीं भूत्कारै सर्व भूत्कारै सर्पवत्तस्य ध्यानभङ्गं चकारः तदा कृदो महावीरो हनुमान् वानरेश्वरः शापं ददौ सुमधये त्वं सर्पो भव दुर्मदे तदैव तस्य चरणौ नत्वा प्राहकृताञ्जलिः के देव बाहिपाकीदि दीनम् मां चरणं गतम् अत प्रसन्नो भगवान् सुमतिं प्राहधर्मविद द्वापरान्ते तीक्ष्णैर्हरि पुत्रधनुश्च्युतैः भिन्नदेह स्वां प्रकृतिं यास्यसि त्वं न संशयः तन्धर्वसुमतिर्नाम विमुक्तो भूद्विदेहराड सदां शापोऽपि वरव द्वरो किमु अधकार्ष्णि निर्महा बाहुश्चैत्र देशान्मनोहरान् वसन्तमाधवी वृन्दैशोभीतान् स जगामः सहस्रदलपद्मानां न्दिरेण वो यत्र सरस्वाबीरचूर्णवद येला लवङ्गलतिका क्षुण्णा सैन्याङ्घ्रिभिप्रि तेन भृङ्गावलिरजे करिकर्णप्रताडिता यत्र वै पुरुषराजन्नागायुधसमबले वलीपलिदौर्गन्ध्यस्वेदक्लमविवर्जिताः दा त्रेदायुगसमाकालो वर्तते यत्र नित्यशः आयुश्चायुधवर्षाणां दिव्यौषधीनदीगुणैः पीयूषतुल्यं तोयं च हेम भूमिर्विराजते मुक्ता विद्रुम वैडूर्यरत्नोत्पत्तिश्च यत्र वै सुन्दर्य प्रमदा रामानित्ययौवनभूषिताः स्फुरन्त्युपवनेष्वारा सौदामिन्योघनेष्विव यत्र वैनगिरम्य वसन्ततिलका शुभा शृङ्गारतिलको नाम राजा यत्र महाबलः जैत्रान्वीरञमाहूय गजमारुह्यदंशिदः योद्धिं यौ यश्च प्रद्युम्नस्यापि सम्मुखे साम्बस् सुमित्र शतजिच्च सहस्रजिद विजयच्चित्रके दुश्च वसुमान्द्रविडक्रदुः जाम्बवत्या सुबाख्यदे चकृ च दुर्दिनं पालयितेषु चैतेषु बाणैर्भिन्नेषु मैथिल बाणान्धकारे सञ्जाते महान् कोलाहलोक्यभूद तदा शृङ्गारति लगो गजारूढो महाबलः त्रिशूलेन तद साम्बं हृदि विव्याधरोषधः अन्यान् सम्पादयामा सशरैको दण्डनिर्गतैः एकाकी विचरन् युद्धे वने वैश्वानरोहित तदा गतसमागत्य तद्गजं सुमदोत्कटं शुण्डा दण्डे सङ्गृहीत्वा पादयाम सबोदले दूरे प्रपदितशीक्रं शृङ्गारतिलको नृपः सद्यो युद्धे बद्धाञ्जलि तरुङ्गाणामर्बुदं च रथानां लक्ष्यमेव ज गजानामयुधं राजा प्रद्युम्नाय बलिं ददौ इद्धं किं पुरुषं खण्डं जित्वा कार्ष्णिर्महाबलः निषादर्शितैर्मार्गैर्हरिवर्षं ततो ययौ इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलस्वसंवादे किं पुरुषखण्डविजयो नाम षड्विंशोऽध्यायः ओम् गर्गसंहिता खण्डम् सवन् विश्वजित्खण्डम् अध्यायम् ट्वेन्टि सेवन् श्रीनारद उवाच हरिवर्षम् नाम खण्डम् सर्वसम्पत्तिसंयुधम् तस्य सीमा गिरिस्साक्षान्निषधो नाम मैथिल वीरपदण्ड टङ्कारघोषैर्व्याक्तवनान्तराद उड्डीतास्तु महा वृद्ध्राक्रोशमात्रवभुर्धराः तीक्ष्णतुण्डा सगरुडा सर्वे दीर्घायुषो नृपा अग्रस्सन् सैनिकान्नगान् हयांस्तेऽपि बुभुक्षिताः आकाशे पक्षिपिर्यात् ते जाते पक्षप्रभञ्जने सेनायाम् अन्धकारेण तदा कार्ष् निर्मः बाहुस्तार्क्ष्यमस्त्रम् समादधे तद्बाणानिर्गतसाक्षाद्वैनतेन य कगेश्वरः सेनायामन्धकारेण व्याप्तायाम् पदगेश्वरः कांश्चित्तुण्डप्रहारेण कांश्चित् पक्षायि स्फुरत्प्रभैः कृध्रान् कुलिङ्गान् गरुडो पावयामास भूदले भग्न दर्पाश्चिन्नपक्षा भक्षिताः पक्षिणश्च भयादुरा दुद्रुवस्ते दु, भयादुरा दुद्रुवस्ते तार्क्ष्येणापि दिशो दश तद कार्ष् निर्मः दशार्णदशाधिपति शुभाङ्गसूर्यवंशजः नागायुध निष्कौशाम्बीपुरीपदिः वेदव्यासमुखा श्रुत्वा प्रद्युम्नं चण्डपौरुषं दशार्णां तां नदीं दीर्घां समुद्धीर्य समाययौ कृताञ्जलिशुभाङ्गोऽसौकिरीडेन नदानदः सुरत्नानां प्रद्युम्नाय महात्मने प्रद्युम्नो भगवान् साक्षात् सर्वगत् सर्वदर्शनः अप्रत्यतं शुभाङ्गम् तम् लोकसङ्ग्रहकाम्यया प्रद्युम्न उवाच दशार्णोऽयम् कथम् देश केन नाम्ना केन नाम्ना बभूवन्मे ब्रूहि हे राजन्निष्कौ शाम्बी पुरीपदे शुभाङ्ग उवाच हिरण्यकचिपुं हत्वा नृसिंहो भगवान् पुरा प्रह्लादेन त्विहागत्य हरिवर्षे स्थितो भगवान् भ्राह प्रह्लादम् भगवान् प्राह नृसिंहो भक्तवत्सलः नृसिंह उवाच शान्तस्य तव भक्तस्य मया पुत्रपिता कतः तस्मान्न महामदे शुभाङ्ग उवाज इति प्रवददोक्षिभ्यामानन्दजलबिन्दवः पतिता कौच तैराजन् सरोभून् मङ्गलायनम् तदा प्राप्तवरो राजन प्रह्लादो हर्षविह्वलः नृत्यं सम्राकधर्मात्मानत्व भूत्वा कृताञ्जलिः प्रह्लाद उवाच मा दुःपिदुर्मया सेवा न कृदा सात्वदां पदे ऋणातयो कदमुच्ये वदै परमेश्वरा नृसिंह उवाच मन्येत्रजलसम्भूते तीर्थे वै मङ्गलायने स्नानम् कुरु महाभागमुच्यसे दशभिर्णैः माधुपिदुश्च भार्याया सुदानाम् गुरुदेवयोः विप्राणाम् च प्रपन्नानाम् ऋषीणाम् विदृणाम् ऋणम् यस्नास्यदि महातीर्थे सर्वखेलनतत्परः ऋणश्च दशपि सोऽपि मुच्यते उवाच दशार्नमोचने तीर्थे स्नात्वा कायाधवो नृणी भूत्वाद्यापि समायादि स्नातुं तन्निश्रद्धाद्गिरेहे दशार्नमोचने देश उच्यते दे तत्रोत्तस्सु समुद्भुधा दशार्णेयं नदी स्मृता श्रीनारद उवाजा तच्छ्रुत्वा भगवान् कार्ष्णी सर्वैः परिचरैः सह दशार्णमोचने तीर्थे ते दानं स्नानं चकारः दशार्णमोचनस्यापि कथां यत् शृणुयान् नृभा ऋणैश्च दशभिः स्वभिमुच्यते भक्तिमुक्तिभाग् भवेद् श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुला संवादे दशार्णदेशविजयो नाम सप्तविंशोऽध्यायः ओम् अध्यायम् 28 एय्ट् श्रीनारद उवाच अथ काष्णिर्महा बाहुसुमेरोरुत्तरान् कुरून् यौ शृङ्गवदपार्श्वे विचित्रान् रुद्धि संवृतान् भद्राङ्गाम् तदस्नात्वा वाराहीम् नगरीम् ययौ कुरु कण्डाधिपस्तस्यां चक्रवर्ती गुणाकरः महासम्भृतसम्भारो देवर्षिगणसंहृदः अश्वमेधं समारेभेदशमं सगुणाकरः तेनोत्सृष्टम् हयम् श्वेदं श्यामकर्णम् मनोहरम् तस्य पुत्रो वीरतन्वा रक्षितुम् निर्गतो भवद अक्षौहिणीभिर्दशभिर्मण्डितश्चण्डविक्रमः विचतरमहावीरो वीक्षमाणस्तुरङ्गमम् वीरचन्द्रश्च तेनश्च चित्रगुर्वे गवान् नृपः मश्यम् गुर्वसु श्रीमान् कुन्दो नाग्नजिदेः सुताः सर्वतस्तम् हयम् शुभ्रम् गृहीत्वा कर्षपूरिताः कस्योत्सृष्टम् वर्धम् तस्ते सैन्यं कार्ष्णीसैन्यम् समाययुः प्रद्युम्नस्तद्भालपत्रम् पठित्वा विस्मितो भवद सर्वे विसिस्मृर्यदवो गृहीतपरमायुधाः तदैव सेना संवृत्ता विचिन्वन्ति अयं नृपा दृष्ट्वा रजो यदु बलदूरेतस्तौ सुविस्मिता गुणाकरे राजनि चण्डविक्रमे न दस्य वस्युः कुरुखण्डमण्डले गवां न कलो न हि चक्रवातकुदो रजप्राप्तमहोर्कमण्डलम् एवं वदन्ती परवाहिनी स्वतः कोदण्डकोशम् दरदस्वनम् परम् करीन्द्रचीत्कारतुरङ्गकेशनम् वादित्रमिश्रम् समुपाशृणोत्तदः तदोद्धव कृष्णसुधप्रणोदिदो बलम् समेत्याश्युसवीरधन्वनः प्रणम्यतम् प्राहरथस्थितृप गुणाकरस्यौरस मर्कतेजसम् उग्रसेनः क्षिदिशेन्द्रो द्वारकेशो यदुत्तमः जम्बुद्वीप नृपाम् जित्वा राजसूयम् करिष्यति तेन प्रणोदितो वीरप्रद्युम्नो धन्युनाम्बरः जित्वा तम् भारतम् कण्ठम् तथा किम् पुरुषम् नृपः करिवर्षम् ततो जित्वा पुरुकण्ठम् समागतः प्रदास्यति बलिम् सोऽभिप्रद्युम्नाय महात्मने अशौहिनी दशयुतो धन देनाभिपूजितः उपायनम् त्वया देयम् प्रद्युम्नाय महात्मने तेन निदम् यज्ञ पश्युमाहर्तुम् कः क्षमः क्षिधौ श्रीकृष्णचन्द्रो भगवान् सहायस्तस्य विद्यते शुभम् स्यात् धानमानाभ्याम् न चेद्युद्धम् भविष्यति वीरधन्यो वाच गुणाकारो नृपेशो य शक्रेणापि पूप्रपूजितः न दास्यति बलिं सोऽभिप्रद्युम् नाय महात्मने शृङ्गवत्पर्वते रम्ये वाराहो विद्यते यस्य सेवं सदा भूमि करोति तस्य क्षेत्रे तपस्तेऽपि ध्यात्वा देवं गुणाकरः वर्षाणामयुधे पूर्णे हरिर्वाराहरूपधृक सन्तुष्टो नृपतिम् भक्तम् वरम् ब्रूहीत्युवाचः राजोवाचपरिम् न त्वरो मां जीप्रेमविफुलः भगवंस्त्वा मृदे देवोऽसुरोऽन्योऽपिनरोधव माम् जेदा न भवेद्भूमा वीप्सितोऽयम् वरो तदास्तु चोक्त्वा भगवांस्तत्रैवान्तरधीयदा तस्मात् तस्य यशीघ्रम् कर्तव्यम् मोचनम् सुधः न चेद्भवद्भिश्च कलिम् करिष्यामि न संशयः श्रीनारद उवाजा इत्युक्त उद्धवस्तस्मात् स्वां सेनामेत्य भूपदे शशंस सर्वं यद्भूतं यदूनां सदसि त्वरं श्रुतकर्मा वृषवीर सुबाहुर्भद्रये कलः शान्तिर्दर्श्य पूर्णमांस सोमगोवर यज कालिदिनन्दना ह्यदे प्रद्युम्नस्य प्रपश्यतः अक्षौभिणीभिर्दशभिर्वृदा योद्धुं गुरुभिः सार्धम् यदूनां चण्डविक्रमैः बभूव तुमुलम् युद्धमब्धिनामब्धिभिर्यथा स्फुरद्भिर्निषिधै शस्त्रायि रेजिरे वीरपुङ्कवाहा क्षणमात्रेण रौद्ररूपिणी नदी बभूवराजेन्द्रशतयो जनविसृदा वेद वेदो द्रुवुस्तदा शेषा उत्तरा कुरवो जनाः शरत्काले यदा प्राप्तमेकशङ्खायुधस्ततः पूर्णमासो महावीरकालिन्दी नन्दनो बली चूर्णयामास बाणौ कायि स्यन्दनं वीरधन्वनः वीरधन्वभिरधो धनुष्टङ्गारयन् मुहुः जघानबाणविंशत्या पूर्णमासमहाबलम् पूर्णमासस्वबाणेन मध्यतस्तान् द्विधाकरोद वीरधन्वादचिचेद धनुज्यां तस्य नादिनीं बाणेनैकेन राजेन्द्रकुवाक्येनेव मित्रताम् लक्षपारमयीं गुर्वीं गदामादाय सत्वरं जकानवीरधन्वानं पूर्णमासो महाबलः गदाप्रहारव्यधिदो वीरधन्वामदोत्कटः परिहेण जकानाशु पूर्णमासं हरे सुधम् पूर्णमाससमुद्धायपवनं नाम पर्वतं समुत्पाट्यस्थितो भूत्वा हस्ताभ्यां श्रीहरे सुधः भ्रामयित्वा दशिक्षेपवा पुरिवेगदः वीरधन्वा प्रपदिो गुणा करक्र मूर्छितो भग्नवेगो भूद्वन्रुधिरं मुखाद अहाकारो महानासीद्वाराह्यां पुरी दुःखदः देवदुन्दुभयो ने दुर्नरदुन्दुभयस्तदात् पूर्णमासोपरिसुरा पुष्पवर्षं प्रचक्रिरे यज्ञदुधाय नृपधिपुत्रं दृष्ट्वा जमूर्छितं गृहीत्वा दिव्यकोदण्डं युद्धं कर्तुम् मनोदते होदाधर्मविधां श्रेष्ठो मुनीन्द्र सर्ववित् कविः ेवस्तमब्रवीद वाम देव उवाच राजम् त्वम् हि न जानासि परिपूर्णतमम् हरिम् सुराणाम् मखदर्थाय जातम् यदुकुले स्वयम् भुवो भारावताराय भक्तानाम् रक्षणाय ज भूत्वा यदुकुले साक्षाद् द्वारकायाम् विराजते तेन कृष्णेन पुत्रोऽयम् प्रद्युम्नो यादवेश्वरः उग्रसेनमखार्थाय जगज्जेतुम् प्रणोदितः गुणाकर उवाच परिपूर्णतमस्यापि श्रीकृष्णस्य महात्मनः लक्षणं वद मे ब्रह्मं त्वं परावरवित्तमः वामदेव उवाच यस्मिन् सर्वाणि तेजांसि विलीयन्ते स्वतेजसि तं वदन्ति परं हरिम् अंशांशोऽंशस्तथा व्ये शकलपूर्णप्रकथ्यदे व्यासाद्यश्च पूर्णतमः साक्षात् श्रीकृष्णो एककार्यार्थमागत्य कोटि कार्यम् चकारः श्रीनारद उवाच श्रुत्वा कृष्णस्य माहात्म्यम् बलिम् गुणाकरः वैरम् विसृज्य प्रद्युम्न दर्शनार्थम् प्रदक्षिणीकृत्य नत्वा दत्वा बलिम् ततः अश्रुपूर्णमुखो भूत्वा प्रागद्गदया गिरा गुणाकर उवाच अद्य मे सबलं जन्मकुलं मेद्यदिने शुभं अद्य क्रदु क्रिया सर्वा सफलास्तव सदा भवे सज्जनसङ्गमात् परा त्वमेव साक्षात् निजभक्तवत्सलः परेशभूमन् परिवाहि वाहि प्रद्युम् न उवाच भक्तिस्ते प्रेमलक्षणा मद्भक्तसङ्गमो भूयाच्छ्री श्रीनारद उवाच इत्युक्त्वा भगवान् काश्निप्रसन्नो भक्तवत्सलः ददौ तस्मै नृपदये अयमेधतुरङ्गमम् इति श्रीगङ्ग इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलशुसंवादे उत्तरकुरुखण्डविजयो नामाष्टाविंशोऽध्यायः ओम् अध्यायं ट्वेण्टि नैन् श्रीनारद उवाच प्रद्युम्नोदमः बाहु जित्वा रादुत्तरान् कुरुन् हिरण्मयम् नाम कण्ठम् जेतुम् कार्ष्णिर्जगामः यत्र सीमा गिरिर्दीर्घसोदो तत्र कूर्मो हरिसाक्षात् देशिकः पुष्पमाला नदीतीरे पुष्पफलभाराढ्यं कन्दमूलनिधि स्वदः वानरा सन्ति तत्रापि वंशजालनीलयोः न्यस्ता श्रीरामचन्द्रेण त्रेधाया मैथिलेश्वर सैन्यकोशं चदं श्रुत्वा युधकामा विनिर्गताः प्रद्युम्न सै साइ, प्रद्युम्न सैन्ये चोत्पे दुर्भ्रूभङ्गै दन्तैश्च लाङ्गूलैश्वान्नराङ्गूलैश्च रथान् बद्ध्वा चिक्षिपुश्चाम्बरे बलाद विजयध्वजनादस्य विजयश्चार्जुनस्य च रथम्बध्वादलाङ्गूले केजिदुत्पेदुरम्बरे कविध्वज ध्वजे साक्षात् कवीन्द्रो भगवान् प्रभुः क्रोधाढ्यफल्गुणसखसमग्रं सर्वतो दिशम् लाङ्गूलेन च तान् बद्ध्वा पादयामा स तदा प्रकर्षिता सर्वे ज्ञात्वा श्रीरामकिङ्कराः नेमुस्तं सर्वतो राजन् कृताञ्जलिपुडाशनैः के जिदालिङ्गनं चक्रु केजिदुत्पे दुरोजसा के जि चुञ्चु भुर् के जि चुचुम्बुर्लाङ्गूलं के केजित् पादं च वानराः तानालिङ्गमहावीरा स्पृष्ट्वा सत् पाणिना पुनः तत्त्वाशिषम् नत्वादं पप्राधाञ्जनीसुधः न त्वा दं वनर सर्वे जग्मुचित्रवनं नृप हनुप्मानार्जुनस्य विध्वजे ह्यन्तरधीयद मकराख्या तदतिशतद्यं नो मि न केदनः ययवृष्णिवै दयन्मुहुः मकरस्य गिरे पार्श्वे दुन्दुभिध्वनिभिस्तदः मधुभक्ष्य मधुकर कोडिश प्रोधिता किल तैर्दं शिदम्बलं सर्वम् अस्ति चेत् कारसंयुधं तदा कार्ष्णिर्मः बाहुपवनास्त्रं समादधे तद्वा तदाडीदाराजन् गदास्ते विधिशो दश तत्र दशे जनराजन् सर्वे वै मकरानः तदस्तु दिण्डिबोधेशस्तत्र हस्तिमुखाजनाः एवं देश्यां तत् पश्यं स्त्रीशृङ्गविषयान् गदः काश्निर्ददर्श तत्रापि मनुष्या शृङ्गधारिणः स्त्रीशृङ्गस्य गिरे पार्श्वे नगरीं स्वर्ण चर्चिकम् हेमसौधमयीम् दिव्याम् रत्नप्राकारमण्डिताम् हिरण्यवर्णपुरुषायस्त्रीजनैश्च तडिद्युभिः नागैश्च नागकन्याभि पुरीम् भोगवतीमिव चन्द्र कान्तानदीधीरेशोभिताम् मङ्गलालयाम् कार्ष्णीसमाय यौराजन्यथा शक्रोमरावतीम् तत्र राजा महावीरो नाम्ना देवसखो बलि स मन्मुखात् बलम् श्रुत्वा बलिं नीत्वा हिरण्मयम् प्रद्युम्नम् पूजयामासभक्त्या परमया पुनः कम्बप्रचमः बाहु प्रद्युम्नो भगवान् हरिः चन्द्रवत्ते कथम् शोभा सर्वेषां च वदाशु मे देवसख उवाच हर्यम्नापितृपदिना कूर्मरूपस्य माम् पदेः अङ्घ्री प्रक्षलितौ तेन वारिणा श्वेतपर्वतशृङ्गाचारीयदुतम प्रमेधाख्यो मनुसुदो गोपालो गुरुणाकृदः जखानकपिलं रात्रावसिदां सिंहशङ्कया वसिष्ठेन तदा शब्दशूद्रत्वं समुपागतः कुष्ठेन पीडिततनु पर्यडं तीर्थमाचरन् अस्यां नद्यां यदा ना नद्यां यदा स्नादो गलत्पुष्ठान् मनोसुधाः मुक्तो भूचन्द्रभक्तस्य देहशोभा बभूवः चन्द्रकान्तानदीचयं प्रसिद्ध भूधिरन्मय्ये तस्यां मुक्तो यत् स्नात्वा गलत् कुष्ठान् मनोसुदाख तदा स्नानं च कर्दारो वयं सर्वे नृपोत्तमरूपेण चन्द्रतुल्या कौ भवान्मोत्र भवामोत्र न संशयः श्रीनारद उवाज इति श्रुत्वमहं बाहुप्रद्यम्नो यादवै सः चन्द्रकान्तां नदीम्ना त्वनेकशः इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे हिरण्मयखण्डविजयो नामयिको नत्रिंशोऽध्यायः ओम् अध्यायं तर्टि श्री नारद उवाच एवं किरण्मयं खण्डं जित्वा काष्णिर्महाबलः जगामरम्यकं खण्डं देवलोकमिवस्फुरन् तस्य सीमा गिरिसाक्षान्नीलो नाम नगाभिराड ना तत्रोत्तरे कालदेशे नगरी भीमनागिनी कालनेमिषु दत्तत्र कलङ्गो नाम राक्षसः त्रेदायुगे रामचन्द्रद्भिदो युद्धात् पलायुधः लङ्कापुर्या इहागत्य वासकृद्राक्षसै सह रक्षसा मयुतेन सौ युद्धाय कृतनिश्चयः कराजूदकृष्णवर्णौ यदूनां बलमाय यौ यदूनां राक्षसानां चघोरं युद्धम् बभूवः प्रघोषो गातवान् सिंहो बलप्रबल राक्षसानाम् बलम् जघ्नोर् वायुवेगैर्यदाघनम् बाणौ कैश्चिन्न भिन्नाङ्गा राक्षसा रणदुर्मदाः त्रिशूलानामुद्गराणाम् वर्षम् चक्रुर्मदोत्कडाः कलङ्गस्तु तदा प्राप्तश्चर्वन्वा रणान् रथान् स नीडान् रत्नकम्बलान् कण्डादसमायुक्तान् प्राक्षिपचाम्बरे बलाद प्रकोष्ठश्रीहरे पुत्र कपीन्द्रास्त्रम् समादधे तद्बाणनिर्गतसाक्षाद्वायुपुत्रो महाबलः वादस्थूलमिवाकाशे चिक्षेपदयो जनम् हनुमन्तं तदा ज्ञात्वा कलङ्को राक्षसेश्वरः लक्षभारमयीं गोर्वीं गतां शिक्षेपनादयन् उत्पपादकभिर्वेगात् गदा भूमौपपादः उत्पादन् वानराधीशो तस्य चाददे कलङ्कोऽपि तदा तस्मै त्रिशूलं स्वं समाददे पृष्टिदेशम्भपादः हनुमां स्तम् तदा दोर्भ्याम् पादयित्वा महीतले वैडूर्यपर्वतम् नीत्वा तस्योपरि समाक्षिपद गिरिपादेन चूर्णाङ्गो मर्दितपञ्चदाम् ययौ तदा जय जय रावशङ्घध्वनिमियु चङ्गध्वनि युधो भवद हनुमान् भगवान् साक्षात्तत्रैवान्तरधीयत प्रद्युम्नस्योपरिसुरा पुष्पवर्षम् प्रचक्रे अधकार्ष्णिर्महा बाहु स्वसैन्यपरिवारिदः मनोहराम् स्वर्णमयि मानवीर्नगरीं ययौ नै श्रेयसवनम् तत्र कल्पवृक्षलतावृधम् हरिचन्दनमन्तारपारिजादोपशोऽभिधम् सन्तानमोद सम्मिश्र वायुभिः सुरभीकृतम् केदकी पञ्चकलता कुडझैपरिसेवितं माधवीनां लता जायै पुष्पिदै सबलैर्वृधं न दद्विकङ्गालिकुलैर्वैकुण्ठमिव सुन्दरं योजनानां पञ्चशतं लम्बितं चारुधिं गिरिं गिरिम् अधोधशोभिदं राजञ्चदयोजनविसृतं कोकिलै कोकिलैश्च मयूरै सारसै शुकैः चक्रवाकैश्च को रैश्च कंसैर्दात्योह कूजितम् सर्वतु पुष्पशोभाढ्यमाक्षिपन्नन्दनं वनं मृगसावरमन्देवैषार्धुलै सह मैथिला न कुलाफफणिभिसाधम् यत्र वैरविवर्जिताः ऐदम् सरसाम् यत्र भ्रमरध्वनिसंयुधम् सहस्रपत्रयकमलैषदभत्राय स्फुरत्प्रभैः इतस्ततो वर्धमानमानन्दमिव मूर्धि मद तद्वनम् सुन्दरम् दृष्ट्वा निर्गदान्नगरी जनान् पप्रत्यवाञ्चिदम् साक्षात् प्रभ्युम् श्रीप्रद्युम्न उवाजा कस्ययम् नगरी रम्या कस्य दम् वनम् अद्भुतम् वदता हे लोका पुण्यशासनाः जनाऊचूः वैवत्सतो मनुर्नाम यो ह्येवं वर्धते मानवे जगिरौ रम्यमस्य नारायणं हरिं वर्धमानं सदा नत्वा करोति विपुलं तवः तस्ययं न गैरम्य तस्य नैश्रेयसंवनं वैकुण्ठा च समानीता भूमिश्चायं गिरिस्तथा यूयं सर्वेऽपि राजानस्तस्य वंशभवाः क्षितौ सूर्यवंशान्दरे राज्यं चन्द्रवंशान्तरे हि श्रीनारद उवाच क्षत्रियाणाम् च सर्वेषां वृद्धम् तम् प्रपितामहम् श्राद्धदेवम् अनुज्ञात्वा विस्मितो भूधरे सुदः श्रुत्वा भजस्तदा सद्यो भ्रातृग्भिर्यदुभिर्मृदः मानवाद्यम् समारुह्य श्राद्धदेवम् ददर्शः शतसूर्यप्रभम् कान्द्या द्योदयन्तम् दिशो दश महायोगमयम् साक्षाद् वेदव्याससुखाद्यैश्च वसिष्ठदिष्णादिभिः परस्परमहाराज शृण्वन्तं श्रीहरेर्यशः न नाम कर्ष्णेर्यदुभिः सहैव तम् कृतञ्जलिस्तत्र समास्थितो भवद मनुःसमुद्धाय हरे प्रभाववे दत्त्वा सनम् गद्गदया गिराब्रवीद मनुरूवाजा नमसे वासुदेवाय नम प्रद्युम्नाय अनिरुद्धाय सा तु नमः अनाधिरात्मा पुरुषत्वमेव त्वं निर्गुणोऽसि परस्परं सदा वशीकृत्य बलात्प्रधानं गुणैः सृजस्यसि च पासि विश्वम् तदो विवेकं सविहाय सर्वदो मत्वा अखिलं चात्रमनोमयं जगद मायापरं निर्गुणमादिपुरुषम् सर्वज्ञमाद्यम् पुरुषम् सनातनम् जागर्ति योऽस्मिं चयनं गदे सदि नायं जनो वेद सदपरं तं पश्यन्तमाद्यम् पुरुषं हि यज्जनो न पश्यदि स्वच्छमलं चदम् भजे न यदा न भोग्निपवनो न सज्जदे करे न कष्टेन रजोभिरावृतैः तदा भवान् सर्वगुणैश्च निर्मलो वर्णैर्यथा स्यास्पटिगो महोज्ज्वलक व्यङ्ग्येन वा लक्ष्मणया च वाक्पधैरर्थं पदं स्फोटपरायणै परं न ज्ञायते नोत्तमेन सद्वाच्येन तद्ब्रह्म कुतस्तु लौकिकैः वदन्ति केचिद्भुवि कृ कर्म कर्तृ यत्कालं च केचित् परयोगमेव दद केचित् विचारं प्रवदन्ति यच्च तद् ब्रह्मेधि वेदान्तविदो वदन्ति यं न गुणानकालजाज्ञानेन्द्रियं चित्तमनोनबुद्धयः मरणवेदो वदति तत्परं विशन्ति सर्वे नलविस्फुलिङ्गवद हिरण्यगर्भं परमात्मतत्त्वं यद्वासुदेवं प्रवदन्ति सन्तः एवंविधं त्वं पुरुषोत्तमोत्तमं मत्वा सदाकं विचराम्यसङ्कः नारद उवाच मनोर्वाक्यं तदा श्रुत्वा प्रद्युम्नो भगवान् हरिः मन्दस्मितो मनुं प्राहगेर्भित्सम्मोहयन्निव प्रद्युम्न उवाच त्वं नो गुरुः क्षत्रियाणामादिराजपितामहः मत्पूजनीयो वृद्धोऽसि श्लाख्यो धर्म धुरन्धरः वप्रजाश्च वयं राजन् रक्ष्या पाल्याश्च सर्वतः भवदा तप्यते दिव्यं तपस्तेन जगत्सुखम् मृग्यस्त्वत्सदृश्य साधु परमात्मा हरिस्वयम् नृणा मं तस्तमोहारी साधुरेवनसा भास्करः श्रीनारद उवाजा इत्युक्त्वा भगवन् कार्ष्णिरनुज्ञाप्यप्रणम्यदम् परिक्रम्यमनुम् राजन् स्वयम् भूमौ जगामः इति श्री श्रीविश्वजित्खण्डे श्री, श्री मानवदेशविजयो नाम त्रिंशोऽध्यायः ओम् गर्गसंहिता खण्डम् सेवन् विश्वजित्खण्डम् अध्यायम् तर्टिवन् श्रीनारद ऊजुः इत्थं तु रम्यकं कण्डं जित्वा कार्ष्णिर्महाबलः सुमेरो पूर्वदिग्भागे केदुमालं जगामः तस्य सीमा गिरिः साक्षान् यत्र गङ्गा महापादकनाशिनी गिरेर्माल्यावदपार्श्वे पुरी मन्मथशालिनी रत्नप्राकारसौधेश्च देवधानीव शोभिता यत्र वै पुरुषाराजन् कामदेवसमप्रभाः शारदेन्दी वरस्यामाः पद्मपत्रनिभेक्षणाः पीताम्बरधरा नार्यः पुष्पहारमनोहराः क्रीडन्ति कन्दुकैर्यत्र कामिन्यो नवयौवनाः गंधी मत्तालिकुलनादिदः भूभागं समन्दाच्छदयो जनाम् तत्पुरीवासीनो लोका निर्गतास्ते बहुश्रुद जगुर्यश्री मुरारे प्रद्युम सभी शृण्वद केलवासीन ऊजु आसी तो शेषशयनो जगदाति साक्षात्प्रधानपुरुषेश्वर आदिदेवः यः प्रार्थितसुरवरैर्भुवनावनाय तस्मै नमो भगवते पुरुषोत्तमाय जादोगधपितृगृहात्पितरौ विमोक्ष्य नन्दालयं शिशुतनुः सदु नन्दपत्न्या संलालितः सहृनया बहुमङ्गलश्रीः प्राणप्रहार मकरोत्किलपूदनायाः बालो बभञ्जशकडं शयनम् निपात्य महदद्भुदकम् च पृष्ठे मात्रे प्रदर्श्य गर्गेण संकथितसुन्दरभाग्यलक्ष्मीः संलालितोव्रजजनैर्नवनीतचौरः श्यामो मनोहरवपुर्मृदुलसबालः भित्त्वा जकास दधिपात्रमदीव दध्नो वृक्षौ बभज जननीलखुदामबद्धः वृन्दावने स विचरन् सह वत्स गोपैर्वत्सासुरं च विनिपात्य कपिद्धवृक्षैः सद्यो विगृह्य करतुण्डपुटे च दोर्भ्यां दैत्यं ददारसभकं तृणवत्तडिन्याम् सन्धारयंश्च शिशुभिर्बहु संखान मदनमोहन वत्सङ्घान् वेणुम् क्वणन्मदनमोहनवेशभृद्यः गोपानखासुरमुखे प्रहिदाञ्जुगोप गोगोपवत्स गोगोपवत्सपवपुः स चकारसद्यः क्षेत्रज्ञ आत्मपुरुषो भगवाननन्दः पूर्णप्रधानपुरुषेश्वर आदिदेवः धृत्वा वपुस विहरन्व्रजबालकेषु सम्मोहयन्विधिमजो विचचारकृष्णः चिक्षेपधेनुकमसौ बलिनं बलेन ताले प्रगृह्य सहसा धणिकालियाख्यम् बभ्रामवह्निमपि बद्धनुजं प्रलम्बं सद्यो जखानसबली दृढमुष्टिना च सञ्चारयन्व्रजवधूर्मधुरं क्वणन्यो वेणुं वने व्रजवधू निजगीतकीर्तिः दिव्याम्बराणि सजहारवराङ्गनाम् विप्राङ्गनाभिरभिदकृदभक्तभोजः देवेज वर्षदि पश्यून्कृपया रिरक्षुर्गोवर्धनम् प्रकृतबाल इवोच्चिलीन्द्रम् बिभ्रद्गिरिं स गजराडिव कञ्चमेकहस्ते शचीपदि वचोभिरदस्तुदोऽभूद नन्दं जुगोपवरुणात्स्वजनाय लोकम् दिव्यं परं च तमसो दिवि दर्शयित्वा श्रीरासमण्डलगदो व्रजसुन्दरीणां रेमे पुलिन्दतडिनी पुलिनेऽङ्गनाभिः मानं हरन्मदनयौवनमानिनीना मन्दर्दधे व्रजवधू निजगीदकीर्तिः स्रग्वीमनोहरवपुर्विरहातुराणां साक्षाद्धरिर्मदनमोहन आविरासीद वृन्दावने शबरराजवराङ्गनाभिर्विष्णुर्विभूदिभिरिव द्युभिरादिदेवः रेमेस्तु दसुरवरैः रासरंगे च रासरङ्गे के केयूरकुण्डलकिरीडविडङ्गवेषः नन्दम् विमोक्षभनिने प्रददौ च मोक्षम् दिव्यम् मणिं स च जहारः शङ्गचूडाद गोपस्तुदो वृषभरूपधरं ह्यरिष्ठम् भौमौ निपात्य निजखान करेण शृङ्गे कंसः परम् भयमवापचतेन केशी सम्प्रेक्षितः सङ्घनमेकवपुः प्रचण्डः उत्सृज्य तम् च तरः सः पुनरापतन्तम् श्रीबाहुना मुखगदेन जखानकृष्णः यो नारदेन बहुवर्णिदभाग्यलक्ष्मीर्व्यो मासुलो व्यसुरकारिपरेणयेन अक्रूरवर्णिदमहोदय आदिदेवो गोपीजनादिविरहातुरचित्तचौरः स्वाफल्कये हितकराय निजं जलचये स च दर्शयित्वा सम्प्राप तत्र मधुरोपवनं परेशो गोपालकैश्च सबलो मधुरां ददर्श स्वैरं चरन्मधुपुरे रचकं निकृत्य कृष्णप्रदाय च वरानधवायकाय मालाकृतं समनुकम्ब्य चकारकुब्जाीं धनुश्च सहसा नमयन् बभञ्ज द्वारिद्विपञ्च विनिहत्य नरेन्द्रमल्लौहत्वा प्रगृह्य विनिपात्य स रङ्गभूमौ कं संहरिस्तु पितरा वधमोचयित्वा बन्धान्नृपं पुरिचकारमहोग्रसेनं नन्दम् बहुदानकरो यदुस्तानाहूयतर्प्य सुधनैश्च निवेदयित्वा विद्यामधीत्य स ददौ प्रमृदं ह्यपत्यं कृत्वा वधं धनुज पञ्चजनस्य कृष्णः गोपीजनान् समनुगृह्य स चोद्धवेनाक्रूरेण हास्ति न पुरे त्वथपाण्डुपुत्रान् कृष्णो विजित्य बलिनम् च जरासुतम् च भस्मीचकारमुचकुन्ददृशात्मकालम् चा निर्माय चाद्भुतपुरम् स्थितयेऽत्र कृष्णो निन्येज कुण्डिनपुरा किल भीष्मकन्याम् पुत्रेण शम्भरमरिं निजका न चादाद्राज्ञे मणीम् युधि विजित्य सऋक्षराजम् पामापदि सजशिरशतधन्वनस्तु कृत्वा ह्युवाह सवितुश्च सुताम् परेशः आवंत्यराजतनुजां स जहारकृष्णः सत्याम् स्वयंवरगृहे वृषभान्तमित्वा कैकेयराजतनुजां स जहारभद्राम् श्रीलक्ष्मणामखिलभद्रपदे सुतां च भौमम् विजित्य सबलं युधि शस्त्रसङ्घैर्निन्ये च षोडशसहस्रवराङ्गनाश्च भामेच्छयासुरतरुं च सभां सुधर्मां शक्रं विजित्य सद्यहारकलत्रमित्रः यो रुक्मिणं च निजखानबलेन गोष्ठ्यां बाणस्य बाहुनि च यं शदथाश्चिनत्सह क्रतवेद जगद्विजेतुं सम्प्रेषितो निजसुदकिल शम्परारिः योऽस्त्रागदो भुविजित्य नृपान् समस्तान् श्रीकेतुमालपतये च तस्मै श्रीनारद उवाच प्रसन्नश्रीहरिकार्ष्णिकुण्डले कटकानि च हीरान्मणिन् गजानश्वान् ददौ तेभ्यो महामनाः पुर्यां मन्मथशालिन्यां व्यधिसंवत्सरो महान् प्रद्युम्नाय बलिं प्रादान्नमस्कृत्य प्रजापतिः अध कार्ष्णिर्महाभाहुर्दिव्यं कामवनं ययौ जनैरगम्यम् गम्यम् च प्रजापदि दुहिदृभिः सुन्दरम् मन्मथा क्रीडम् वृदम् कामास्त्र तेजसा नारीणाम् यत्र पदति व्यसुर्गर्भो न वत्सरम् तदा परात् कामवनाद्विनिर्गदः श्रीपुष्पधन्वा नृप पंचसायकः पीदाम्बरश्यामतनुर्मनोहरस्तदा न कोदण्डगुणध्वनिं स्मरः यद्बाणदो यादवपुङ्गवास्वदः स सैनिकशाश्वकजापदादिभिः निपे दुरारा किल कामविह्वलास्तद्बाणवेगस्य न वर्णनं भवेद् धाशोकार्ष्णिर्जगदीश्वरेश्वरः प्रलीनदां प्राप जलं यथा सद्यो विशि स्मोर्घ्यधव ससैनिका विज्ञायपूर्णं नृप रुक्मिणीसुदं यदि श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे मन्मददेश विजयो नामैकत्रिंशोऽध्यायः ओम्